श्रीमन महाभारतं आदि महात आदिपर् जतुगृहपर्वि पांडववन प्रवेश एकाशदिकमोध्यायन उवाच अथ रात्र व्यतीतायामशो नागरो जन जगामत्वरितो दिदृक्षुः पाण्डुनन्दनान् निर्वापयन्तो ज्वलनम् ते जनादृशुस्ततः जातुषम् तद्गृहम् दग्धममात्यञ्च पुरोचनम् नूनम् दुर्योधनेनेदम् विहितम् पापकर्मणा पाण्डवानां विनाशायेत्येवं ते चुक्रुषुर्जनाः विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः दग्धवान् पाण्डुदायादान् न नूनं शान्तनवोऽपिह न धर्ममनुवर्तते द्रोणश्च विदुरश्चैव कृपश्चान्ये च कौरवाः तेवयं धृतराष्ट्रस्य प्रेषयामो दुरात्मनः संवृत्तस्ते परः कामः पाण्डवान् दग्धवानसि ततो व्यपोहमानास्ते पाण्डवार्थे हुताशनं दद्रुशुर्दग्धाम ददृशुर्दग्धां पञ्चपुत्रामनागसं खनकेन तु तेनैव वेश्म शोधयताबिलं पांसुभिः पिहितं तच्च च पुरुषैस्तैर्नलक्षितम् ततस्ते ज्ञापयामासुर्धृतराष्ट्रस्य नागराः पाण्डवानग्निनादग्धानमात्यञ्च पुरोचनं श्रुत्वा तु धृतराष्ट्रस्तद् राजा सुमहदप्रियम् विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः अद्य पाण्डुर्मृतो राजा मम भ्राता महायशाः तेषु वीरेषु दग्धेषु मात्रासः सह विशेषतः गच्छन्तु पुरुषाः शीघ्रम् नगरं वारणावतं सत्कारयन्तु तान् वीरान् कुन्तिराजसुताञ्च तान् कारयन्तु च कुल्यानि शुभानि च बृहन्ति च ये च तत्र मृतास्तेषां सुहृदो यान्तु तानपि एवं गते मया ्यं यद्यत् कारयितुं हितं पाण्डवानां च कुन्त्याश्च तत्सर्वं क्रियतां घनैः एवमुक्त्वा ततश्चक्रे ज्ञातिभिः परिवारितः उदकं पाण्डुपुत्राणां धृतराष्ट्रोऽम्बिकासुतः समेतास्तु ततः सर्वे भीष्मेण सह कौरवाः धृतराष्ट्रः सपुत्रश्च गङ्गामभिमुखाययुः एकवस्त्रा निरानन्दा निराभरणवेष्टनाः उदकं कर्तुकामा पाण्डवानाम् रुरुदु सर्वे शोक महात्मदुसिताशंशोकपरायण हाुुधिष्ठिकौरव्य हा हा भीमि चपरे हाफागुने चाप्य हा चप कुन्तीर्माताश्च शोचन्त उदकं चक्रिरे जनाः अन्ये पौरजनाश्चैवमन्वशोचन्तपाण्डवान् विदुरस्त्वल्पशश्चक्रे शोकं वेदपरं हि सः ततः प्रव्यथितो भीष्मः पांडुराजसुता मृताे तछ्रुवा विललापुरदच भीष्म नोत्सह यातासेनंजयौ तरस वेगितात्म निर्भेत्मी मंदिर परा सुव न पश्या पृथया सह पांडव नीत यदिधन नी गता धर्मराज स ननु नु विप्रैधिष्ठि सत्यव्रतो धर्मदत्त सत्यवा क्षुभलक्षणः कथं कालवशं प्राप्तः पाण्डवे यो युधिष्ठिरः आत्मानमुपमां कृत्वा परेषां वर्तते तु सः मात्रा तु कौरव्यः कथं कालवशङ्गतः यौवराज्येऽभिषिक् तेन पितुर्येनाहृतं यशः आत्मनश्च पितुश्चैव सत्यधर्मस्य वृत्तिभिः कालेन स हि सम्भग्नो धिक् क्लेशिता दुःखभागिनी पुत्रगृध्नुतया कुन्ती न भर्तारं मृता अल्पकालं कुलेजाता भर्तु भर्तुः प्रीतिमवापया दग्धाद्यसः पुत्रैः सा असम्पूर्णमनोरथा युवा मृतो भीम इति श्रुत्वा मनो न श्रद्धाति मे अनिन्द्यानि च यो गच्छन् क्षिप्रहस्तो दृढायुधः प्रपत्तिमाल्लब्धलक्ष्यो रथयानविशारदः दूरपातित्वसम्भ्रान्तो महावीर्यो महास्रवित् अदीनात्मानरव्याघ्र श्रेष्ठ सर्वधनुष्मताम् येन प्राच्याः सौवीरा दाक्षिणात्याश्च निर्जिताः ख्यापितम् येन शूरेण त्रिषु लोकेषु पौरुषम् यस्मिन् जाते विशोकाभूत् वीर्यवान वीर्यवान् पुरन्दरसमोजिष्णुः कथं कालवशङ्गतः कथं तावृषभस्कन्धौ सिंहविक्रान्तगामिनौ मर्त्यधर्ममनुप्राप्तौ यमावरिनिबर्हणौ